विना भगिनी भवती आरम्भं करोति वा सरस्वतीवन्दनया हा भगिनी सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा हरि ओम् श्रीकृष्णाय धन्यवादाः पुनः एकवारं सर्वेषां स्वागतम् अद्य दिनस्य विषयः परन्तु विषयात् प्राक् एकं श्लोकं स्वीकुर्मः भगवद्गीतायामस्ति अहं स्क्रीन शेयर करोमि तथैव अस्माकं विषयः अपि तत्र एव विद्यते पश्यामः ृश्यते दृश्यते दृश्यते दृश्यते अस्तु अम्बिकापतिमहोदय भवान् पठति वा आं धन्यवादः सुखदुःखे सुखदुःखे समे कृत्वा लबा लभौ जना जन जनै जनौ जया जयौ इति अस्ति जया जया जयौ जय जयौ ततो युद्धाय युज्यस्वैवं पापं पापमाप्स्य आप्स्यति इति अस्ति एकवारं पुनः एकवारं पठति वा सुख सुखदुःखे समे कृत्वा लाभालाभौ जया जयौ तदो युद्धाय युज्यस्वैवं पाप पापम् अवाप्स्यसि योग्य योग्य साम अत्र सुख दुख सुखम दुखम सुखे दुखे समेत लाभ अलाभ लाभा लाभ अलाभ लाभ लाभ जय अजय जयाजय ततो युद्धाय युजस्व नैव पापम् अवाप्स्यसि तत्र द्वितीये अध्याये तत्र लिखितमस्ति तत्र श्रीकृष्णः भगवान् अर्जुनम् उपदिशति किं वदति युद्धाय युजस्व युद्धाय युज्यस्व तत्र युज् इति धातुः अस्ति युज्यस्व इति लोटलूप लोटलकार मध्यम पुष एक हे अर्जुन तम युद्धाय, युज्यस्व, नैव, न ना एवं, युद्धा पापं, नापं अवापी इति, अव उपसर्गपूर्वक अक्लुति नासी वापम ना पापं भवान् पापं न प्राप्नोति न प्राप्स्यसि इति लृट्लकारे भविष्यत्काले अस्ति न प्राप्स्यसि कदा युद्धाय युज्यस्व पापम् अवाप्स्यसि न पापम् अवाप्स्यसि न अन्वया दृष्ट्या पश्यामः यत्र न दृश्यते न क्रियापदेन सह गच्छति क्रियापदमस्ति तत्र न एव न अस्ति इत्युक्ते तत्र न क्रियापदेन सह न अवाप्स्यसि पापं भवान् पापं न प्राप्नोति इति वदति युद्धाय युज्यस्व द्वितीये वाक्ये तत् कदा कदा प्रथमापङ्क्ति सुखदुःखे समे कृत्वा लाभालाभौ जया जयौ सुखञ्च दुःखञ्च समे कृत्वा समभावेन पश्यतु लाभ अलाभः समे कृत्वा अत्र समे कृत्वा इति न आगच्छति समौ कृत्वा इति भवति जया जयौ तत्रापि समौ अस्माकं विषयः अस्ति अत्र सुखं दुःखं सुखं दुःखं समान वा कोऽपि वक्तुं शक्नोति विरुद्धार्थक सुखं च दुःखं च तत्रापि लाभः अलाभः समान वा न लाभः इत्युक्ते प्राप्ति भवति लाभः अलाभः समानः न जयः अजयः तत्र विरुद्धार्थकः इति पश्यामः तत्र जयः पराजयः तत् समानम् एव वा जयः पराजयः न न no. no, no. तत् सर्वं विरुद्धार्थकाः शब्दाः समभावेन पश्यतु सम समे कृत्वा समौ कृत्वा समभावेन दृष्ट्वा युद्धाय युज्यस्व न पापम् अवाप्स्यसि पापम् न अवाप्स्यसि इति भगवान बोधय अस्कं विषय अद अस्ट सुखम दुखम लाभ अलाभ है एते सर्वे विरुद्धा शब्द विपरीता शब्द विलोम उच्य देशा अयन कूं विषय अस्ट विरुद्धार्थकाः शब्दाः इति अस्तु आरम्भम् कुर्मः एकनिमिषम् तत्र रमणीभगिनी अस्ति वा अद्य दिने नमस्ते नमस्ते भगिनि नमस्ते कथं कथम् कथम अभवत् भवत्याः प्रबोधनवर्ग कथमभवत् सम्यक् अभवत् सम्यक् अभवत् कुत्र कुत्र आगतः प्रबोधनवर्ग ओ कोच्चिनगरे पेरिबावोर् स्थाने पेरिबावूर् नगरे, नगरे आसीत् प्रतिदिनं सप्तदिनानां सप्तदिनानां बहु उत्तमम् आम् तत्र सम्भाषणार्थं प्रबोधनम् आसीत् वा आम् भगिनि अपि अत्र कक्षाः अपि अभवत् अभवन्तु निवासशिबिरम् एवं तत्र एव अत्र अमृताविद्यालये निवासं कृतवती भवत्याः अभिनन्दनं तत् एतादृशदिनानि भवती दत्तवती तत् अभिनन्दनानि बहु कठिनम् इति Uh, परन्तु अहं सर्वे सुखेन अत्र वसि वसितवन्तः एवं सर्वे बहु जनाः बहु अध्यापकाः अध्यापिकाः मम मम वयः महिलाः विद्यालये पठितः विद्या विद्यार, विद्यार्थी विद्यार्थी <laughs> विद्यार्थी विद्यार्थिनी च आसीत् ओ एवं वा उत्तमं उत्तमं विस्ट्र एका एका बालिका उत्तमं बहु उत्तमम् इति संस्कृतभाषायाः सीमा इति वक्तुं शक्नुमः उत्तमं भगिनि उत्तमं मया <laughs> गतवती <laughs> प्रथमतः तु जालपुटे यद्दत्तमस्ति तस्य पठनं कुर्मः अनन्तरम् इतोपि कानिचन शब्दानि सन्ति तत्र शब्दान् स्वीकृत्य अपि वयं पश्यामः अत्र अस्ति विरुद्धार्थकाः शब्दः इति अस्ति श्यामलाभगिनी पठति वा पठामि भगिनि हा पठतु वीरद्योगाः शब्दाःकाः विरुद्धार्थकाः शब्दाः इति विरुद्धार्थकाः शब्दाः हा शब्दाः विरुद्धार्थकाः उन्नतः वामनः उन्नतः इत्युक्ते उन्नतः इत्युक्ते वृक्षः उन्नतः इत्युक्ते वृक्ष इति न उन्नतः इति वृक्षस्य विशेषण वामनः इति वृक्षस्य विशेषण वृक्षः कथमस्ति वृक्षः उन्नतः अस्ति वृक्षः कथमस्ति वृक्षः वामनः अस्ति तत्र उन्नतः इत्युक्ते भवती जानाति उन्नतः इत्युक्ते विपरीतार्थ उन्नतः वामनः उन्नतः इति एकः शब्दः वामनः इति द्वितीयः शब्दः द्वयोः मध्ये सम्बन्धः कः विरुद्धार्थकाः शब्दः इति उन्नतः वामनः द्वितीयं पठतु किमस्ति पुरातनं नूतनं पुरातनं नूतनं तत्र पुरातनं किं दृश्यते तत्र चित्रे कारयानं कारयानं पुरातनं कारयानं नूतनम् अत्र पश्यन्तु अत्र विशेषणरूपेण आगच्छति अतः उन्नतः वृक्षः उन्नतः इति पुल्लिङ्गिशब्दः अतः वृक्षः अपि तत्र पुल्लिङ्गि वृक्षस्य विशेषण वृक्षः इति पुल्लिङ्गिशब्दः अतः उन्नतः अपि पुल्लिङ्गिशब्दः वामनः इति पुल्लिङ्गि किमर्थम् वृक्षः इति पुल्लिङ्गी अतः वामनः इति पुल्लिङ्गी यदा अहं वदामि बालिका तत् कथं भवति उन्नतः शब्दस्य कृते बालिका अस्ति चेत् कथं भवति श्यामला भगिनी उन्नतः उन्नता बालिकाः इति न वामना उन्नता बालिकाः इति अस्ति वा एकवचने माला माले मालाः गीता गीते गीताः बालिका बालिके बालिकाः तत्र उन्नतः वृक्षः उन्नता, उन्नता बालिका उन्नतं पुष्पं वामनः वृक्षः वामना, वामना बालिका वामनं पुष्पम् एवं भवति हा अतः अत्र उक्तवती पुरातनं कारयानं कारयानं पुरातना शाटिका पुरातना माला नूतना माला नूतना शाटिका एवं भवति इदानीं स्पष्टमस्ति श्यामला भगिनी स्पष्टमस्ति अग्रिमं पठतु हा अग्रिमं किमस्ति बृहत् लघु अनन्तरं शीतलम् उष्णं शीतलम् उष्णम् अनन्तरं स्थूलः कृशः स्थूलः कृशः अनन्तरम् अधिकं किञ्चित् अधिकम् अधिकं जलं किञ्चित् जलम् तत्र किं दृश्यते जलम् अधिकमस्ति जलं किञ्चिदस्ति हा अनन्तरम् अत्र किं दृश्यते दीर्घः दीर्घः तत्र ह्रस्वः ह्रस्वः दीर्घः ह्रस्वः तत्र लेखनी इति अस्ति तत् ह्रस्वः इति कथं भवति तत् मापिका अस्ति तत् मापिका तु दीर्घ एवं वदामः चेत् सम्यक् परन्तु तत्र मापिका अस्ति चेत् स्त्रीलिङ्गिरूपं लेखनी अपि श्रीलिङ्गिरूपम् इति कृपया अस्तु इदानीं किमस्ति एके एकनिमिषं किं जानामि एकनिमिषम् एकनिमिषं वा अभवत् क्षम्यताम् अस्तु श्यामला भगिनी धन्यवादाः धन्यवादः <coughs> भगिनि जयन्तीभगिनी पठति वा जयन्ति भगिनी आं पठामि भगिनिमिष अभ्यासः अद्यस्तनवाक्येषु अधस्त अधस्तनवाक्येषु अधस्तन वाक्येषु स्थितानि रिक्तस्थल रिक्तस्थलानि उचितैः विरुद्धार्थक विरुद्धार्थकशब्दैः पूरयतु स्नारैः विरुद्धार् विरुद्धार्थकशब्दैः विरुद्धार्थकशब्दैः इति विभक्तिविषये वदति वा तृतीयविभक्ति बहुवचनं दिने तथैव उचितैः अपि नारीकेलवृक्षः डे अस्ति आम्रवृक्षः डेस् अस्ति नारीकेल नारीकेलवृक्षः उन्नतः अस्ति आम्रवृक्षः किं वदामि बेनि अस्तु भगिनि एकनिमिषं आ डेस् अस्ति ऋषकस्य गृहं डेस् अस्ति राजभवनं राजभवनं बृहत् अस्ति लघु ऐ मीन् गृहम् लघु अस्ति अस्तु भगिनी कारयानं डेश् अस्ति कारयानं कारयानं कारयानं पुरातनम् अस्ति कारयानं नूतनम् अस्ति पुरातनं नूतनं राजेशः डेस् अस्ति अनिलः डेस् अस्ति राजेशः राजेशः स्थूलः अस्ति कृशः कृशः कृशः अनन्तरं पयोहिमं डेस् अस्ति चायं डेस् अस्ति पयोहिमं Uh, पयोहिमं शीतलं शीतलं शीतलम् अस्ति चायम् hmm. उष्णमस्ति hmm. पयोहिमम् इति ऐस्क्रीम् कृते शब्दः uh, आम् ऐस्क्रीम् ऐस्क्रीम् hmm, ah, चायम् उष्णमस्ति uh, उष्णमस्ति अनन्तरं uh, uh. hmm. uh, मापिका डेस् अस्ति nah, <laughs> कूप्यः जलम् अस्ति सारि सरि एकं हा कूप्याः जलं डेस् अस्ति कूप्याः अधिकं जलम् अस्ति कूप्याः किञ्चित् जलम् अस्ति किञ्चित् जलम् अनन्तरं मापिका डेस् अस्ति लेखनी डेस् अस्ति मापिका एकनिमिषं मापिका स्थूलः दीर्घः अस्ति मापि, मापिका ह्रस्वः अस्ति तत्र अहं मन्ये दीर्घा इति भवेत् खलु मापिका इति श्री दीर्घा दीर्घा द्रस्खा तत्रापि द्रस्वा एव भवति किल बेनिस्वा इति भवति तत्र किञ्चित् तत्र सत्यं <Sattyan> धन्यवादः धन्यवादः इदानीं किं कुर्मः तत्र विपी विपरीतार्थाः तु सर्वे वयं जानीमः परन्तु अस्माकम् अभ्यासार्थं तत्र कानिचन वाक्यानि वा तत्र केचन शब्दाः सन्ति तेषाम् अध्ययनं वयं कुर्मः विरुद्धार्थकाः शब्दाः के तत् वयं पश्यामः वाक्यरचना अपि वयं कुर्मः अस्तु तत्र अहम् एकं शब्दं वदामि वीणा भगिनी भवत्याः कृते अस्ति <coughs> सरलम् इति अहं वदामि सरलं प्रथमतः तु सरलं शब्दं स्वीकृत्य वाक्यरचना अनन्तरं तस्य विपरीत अर्थ विरुद्धार्थकः शब्दः अनन्तरं तस्य अपि वाक्यरचना अत्र भवती सरलम् अहं नपुसलङ्गे उक्तवती परन्तु भवती सरलः वासरला पुल्लिङ्गी अपि वक्तुं शक्नोति वद <laughs> खादितुं सरलम् अस्ति तद् भवति किं वक्तुम् इच्छति जनरली ईटिङ्ग् इस् ईजि बट् कुकिङ्ग् इस् डिफिकल्ट् ओके ईटिङ्ग् इस् ईसि खादनम् इति वक्तुं शक्नुमः खादनं खादनं खादनं सरलं भवति सरलम् ओके अस्तु तस्य विपरीतार्थः किं भवति सरलम् इति विपरीलि विपरीतशब्दं सरलं क्लिष्टं हा क्लिष्टं वा कठिनं वा क्लिष्टमपि इदानीं क्लिष्टं वा कठिनम् वा उपयुज्य वाक्यरचना पचनीयम् उदर् नै हौ डु इस् ए कुकिङ्ग् भगिनी पचामीक्षणं पाचनक्रिया कठिनम् अस्ति पाचनक्रिया कठिना इति भवति ओके स्त्रीलिङ्गिक्रिया इति स्त्रीलिङ्गि अतः कठिना अस्तु उत्तम उत्तमम् उत्तमं तादृशम् एव भवेत् इति मम चिन्तनं हा अधिकांशतया उत्तममस्ति अस्तु धन्यवादः भगिनि धन्यवादः अग्रिमं रमणी भगिनी रम् रमणी भगिनी शीघ्रम् इति शीघ्रं शीघ्रम् अश्वः शीघ्रं धावति सम्यक् गज इदर्थं गजः गजः चलति उत्तमम् उत्तमम् उत्तम धन्यवादः अश्वः जयन्ती भगिनी जयन्ती भगिनी आं भगिनी अस्ति वा समर्थः समर्थ मम समर्थ पुत्री किमपि कार्यं कर्तुं समर्था अस्ति उत्तमम् विपरीतः विपरीतर्थः अहं किमपि कार्यं कर्तुम् असक्ता असत, अस, असक् असा असत् ऐ मीन् सम् असमर्था अस्मि किमर्थम् एतत् वदति जयन्ती भगिनी विपरीत न परन्तु भवत्याः कृते तत् मया तु तत् न रोचते अत्र मह्यं न रोचते एतत् वाक्यं <laughs> तत् सर्वथा अयोग्यम् क्य अत्र विपरीत अर्थ तु आगच्छति असमर्थः इति परन्तु भवती असमर्थ इति अहम् अमान्योलनं करोति चेत् मम पुत्री ए, पु, पु, पु, पुत्री सह तोलनं करोति चेत् अहम् असमर्था भवामि पुत्र्याः <laughs> अपेक्षया अहं वक्त शनोती मम पुत्री शीघ्रतया धावी परंतु तस् अपेक्षया सा सर्थ पर अपेक्षया अहम असमर्था धावन धाव धाव असमर्थ वक्त शक्नो अस्त ओके अनम भारतमोद भारतमोद अस् आ, हिंसा भवतः शब्दः हिंसा आम, हिंसा हिंसा हिंसा अहं हिंसा न करोमि उत्तमम् hmm. अहं कस्यापि हिंसा न करोमि विपरीतर्थ दयांसा um, uh, no, right तत्र दया अपि योग्यमेव परन्तु अहिंसा इति शब्दम् अहिंसा सम्यक् गान्धिजी अहिंसा न्धिमहोदय अहिंसां पालयति नो चेत् गान्धिमहोदय उक्तवान् अहिंसा परमो धर्मः इति नो चेत् गान्धिमहोदय बापूजी अहिंसायाः पालनं कृतवान् सर्वं परन्तु उत्तमप्रयत्नमहोदय उत्तममस्ति उत्तमम् अस्तु uh, अत्र अगस्त्यमहोदय तत्र जाल समस्या अस्ति इति उक्तवान् प्रेषितवान् अस्तु पूर्णम् इति शब्दः पूर्णम् इति शब्दः श्यामलाभगिनी वदति वा पूर्णम् uh. इति uh. uh. uh. पूर्णं पूर्णा वा पूर्णः त्रिषूणि पूर्णं त्रिष् पूर्णं पूर्णा पूर्णः हा तत् भवती वाक्यरचना करोतु बोधनं सम्पूर्णं खादति बोधनं खादति बोधनं सम्पूर्णं पाठयति इति वक्तुं शक्नुमः mm. इदानीं mm, mm. तस्य विपरीत किं भवति सम्पूर्णं शब्दस्य पूर्णं शब्दस्य विपरीत किं भवति भोजनं पूर्णम् परन्तु पूर्णं शब्दस्य विपरीतर्थः कः रिक्तम् इति अपूर्णं यत् वयं वदामः चेत् तत्र रिक्तम् पूर्णं रिक्तम् पूर्णं रिक्तम् एम् टि वदति वाक्यं सायङ्काले दुग्धं पू, सायङ्काले दुग्धं पूर्णमस्ति सायङ्काले दुग्धं पूर्णमस्ति परन्तु रिक्तं कृते किं वदति भगिनी? पूर्णं हा तत्र वाक्यरचना सायङ्कालं पूर्णमेव पिबति पूर्णं दुग्धं पिबति वा सायङ्काले अत्र रिक्तं कृते कथं भवति मम गृहे आतिथयः आगच्छन्ति परन्तु दुग्धं नास्ति तत्पात्रं रिक्तमस्ति पश्यन्तु सर्वे वाक्यद्वयं वा वाक्यत्रयम् अपि वक्तुं शक्नुमः पृच्छतां कृपया एक्मेरिया सेण्टेन्स् चूकान् तत् रिक्तं पात्रं रिक्तमस्ति बहवः अतिथयः आगच्छन्ति अतः दुग्धपात्रं रिक्तमस्ति अस्तु भगिनि भगिनि इदानीम् अम्बिकापति महोदय अम्बिकापति महोदय ग्रहणं ग्रहणं ग्रहण बालकः पुस्तकं ग्रहणं पुस्तकस्य ग्रहणं करोति करती करोति तत्र प्रिया अस्ति ग्रहणं ग्रहणं करोति उत्तमम् इदानीं विपरीतार्थ किं भवति ग्रहणम् अहं स्वीकरोमि अहं ग्रहणं करोमि तदा विरुद्धार्थकः ग्रहणं तत्र भवति त्यागम् इति त्यागं ग्रहणं त्यागम् त्यागं करोति ग्रहणं करोति स्वीकरोति त्यागं करोति ग्रहणं न करोति इति त्याग ददाति त्याग ददाति ददाति त्यागं करोति वाक्ये वदति वा बालकः लेखनं ददाति लेखन्याः लेखन्याः त्यागं करोति अस्तु धन्यवादः अग्रिमे जयन्तीभगिनी जयन्तिभगिनी आम् इदानीं सुपुत्र सुपुत्रः इति रामः सुपुत्रः अस् आस्ति सम्यक् विपरीतर्थ रावणः रावणः किं वदामि असुर <laughs> <laughs> mm. <laughs> <laughs> सुपुत्र कुपुत्रः कुपुत्रः आसीत् सम्यक् कस्य कुपुत्रः रावणः uh, uh, mm, वि, विश्वस्वरस्वानिः विश्व... uh, विश्रवामुनिः विश्वः uh. कुबेरस्य नाम वैश्रवणः इति अस्ति uh, वैश्रवण आं uh, वैश्रवणः कुबेरः मिश्रवाप्तेः पुत्रः समस्ति विणा भगिनी वीणा भगिनी हा भगिनी उदयः उदयः हा उदय रविः रविः प्रातःकाले उदयत् उदयत्ते हा तत्र उडैति इति शब्दः अस्ति परन्तु अस्माकं कृते उदयः इति शब्दम् इति दत्तः इति शब्दः अस्माकं कृते उदयः हा तत् प्रातःकाले सूर्यस्य उदयः प्रतिदिने पश्यामि प्रतिदिने पश्यामि सूर्यदर्शनं करोमि तत् सूर्यस्य उदयः पश्यामि एवं वा सूर्यस्य उदयं पश्यामि नो चेत् तत्र प्रातःकाले सूर्यस्य उदयः जातः इति इदानीम् किं भवति उदयः एतस्य अष्टमः अष्ट अष्ट इति वाक्यरचना करोतु अष्टरच सन्ध्याकाले सूर्यः सूर्यस्य अस्तव भवति सम्यक् अस्तः भवति सम्यक् धन्यवादः भगिनी अग्रिमे भारतमहोदय भारतमहोदयः दूर्जनः दूर्जनः दुर्जनः स्वजनः दुर्जनः सज्जनः रचना करोतु अहं कदापि दुर्जनः न इच्छामि दुर्जनं न इच्छामि कदापि मम मम जीवने दुर्जनाः न भवेयुः वा दुर्जनान् न इच्छामि सम्यक् इदानीं सज्जन सज्जनः शब्दस्य कृते वदतु सज्जना एव्रिडे मीन्स् सज्जना ओल्वेज् मीन्स् सज्जनाः सदैव सत्यं वदन्ति उत्तमं महोदय उत्तमम् उत्तमं सत्यं वदन्ति तत्र सज्जनः इति वदामः चेत् वदति सज्जनः सदैव सत्यं वदति सज्जनाः सत्यं उत्तमम् अस्तु अम्बिकापतिमहोदय अम्बिकापति मानः तत् आदरः इति स्वीकरोतु इत्यदपि चलति आदरः वा मानः मानवः किं न मानः इति एकनिमिषं लिखित्वा दर्शयामि एकनिमिषं मानः अपमानः तथैव मानः अपमान अवगतं वा मानः अपवा अपमानः वा तत्र <laughs> आदरः अनादरः एवमस्ति खलु आदरः अनादरः मानः अपमानः अपमानः मान शुद्धवाक्यं वाक्यानि वदति चेत् अपमानम् अभवत् भवति मानं भवति अशुद्धवाक्यानि वदति चेत् अपमानम् अभवत् भवति परन्तु वाक्यं तु, तु योग्यमस्ति व्याकरणदृष्ट्या परन्तु अस्माकं वर्गे तत् न भवति वाक्यं न न अस्माकं वर्गे तत् सर्वेषां कृते मम मनसि आदरभावना एव वर्तते शुद्धवाक्य वा शुद्धं वाक्यं शुद्धं भवेत् वा अशुद्धं भवेत् वयं सर्वे संस्कृतरागिणः सर्वेषां विषये मनसि आदरभावना एव अस्तु व्याकरणदृष्ट्या भवान् योग्यम् एव उक्तवान् धन्यवादः अनन्तरं राधाभगिनी क्षम्यतां राधा भगिनी तु नास्ति एव विना भगिनी समीपे समीपे ीपे पुस्तकः मम समीपे अस्ति लेखनीः दूरम् अस्ति दूरे अस्ति तत् समीपे सप्तम्यन्तं वयं वदामः चेत् तत्र समीपे दूरे समीपं दूरम् एवं मम समीपे अस्ति मम दूरे अस्ति हा अस्तु योग्यं योग्यं जयन्ती भगिनी जयन्ती भगिनी आं बेनि आं बेनि तत्र भूतं भूनि भूतं भूतं अग्निः भू पञ्चभूतानाम् एकभूतं भवति अस्तु परन्तु भूतं शब्दस्य विपरीतर्थ किं वदति वाक्यं योग्यमस्ति परन्तु भूतं शब्दस्य विपरीतर्थं किम् विरुद्धार्थकशब्दः किञ्चित् चिन्तनं करणीयम् भूतमित्युक्ते अन्य अर्थः अपि अस्ति नवीने भूतमित्युक्ते पास्ट् भूतकालम् तर... भविष्यत्काले भूतं भविष्यम् इति भविष्यति परन्तु जयन्तीभगिनी तत् विषये उक्तवती तदपि योग्यं भाविश्यं। परन्तु विपरीत अर्थः इदानीं तद् भूतं भविष्यम् एवं वाक्यवचिनं पश्यन्तु सर्वे hmm. वाक्यद्वयं okay. वाक्यत्रयम् अपि वदन्तु hmm. अनन्तरं विपरीत अर्थ सरल अर्थ योजित्वा यदि वक्तुम् इच्छति चेत् अपि hmm. सर्वे वदन्तु कृपया भूतं hmm. hmm. भविष्यम् वदतु अहं भूते भूतं भूतेपि वक्तुं शक्यते किल भगिनी भूते वक्तुं शक्नोति अहं भूते ऐ मीन् भूत भूते उडुपि मन्दिरं गतवती अहं भविष्यं श्रीरङ्गं मन्दिरं गच्छामि गमिष्यामि इति भविष्यत्काले गतवती गमिष्यामि मणी भगिनी रमणी भगिनी आं भगिनी उद्योगः उद्योगः उद्योगः उद्योगस्य अर्थः उद्योगः कार्य उद्यमशीलः मनुष्यः कार्यं करोति उद्योगः महेशः कार्यं करोति आपणे कार्यं करोति आपणे उद्योगम् उद्योगं उद्योगः शब्दस्य विपरीतर्थः कः भवति अनुद्योगः अनुद्योगः इत्युक्तौ आलस्यलस्य आलस्यम् इति ओ आलस्य वाक्यं वदतु सुरेशः कार्यं न करोति सः अलसः आलस्येन आलस्येन उपमशति समय समयं या यापयति कार्यं न सः आलस्येन समयं समयं समयं यापयति आलस्य त्यजनं करोतु इति जनाः सज्जनाः वदन्ति उपदेशं ददाति आलस्य धन्यवादः धन्यवादः भारतमहोदय भारतमहोदय कीर्ति कीर्ति कीर्तिर्ति आम् अकीर्ति अपि अस्ति अपकीर्ति अपि अस्ति अपकीर्ति यथा मान अपमान अस्ति तथैव कीर्ति अपकीर्ति हा वदतु प्रामा प्रामाणिकता कार्यं कृत्वा कीर्ति सम्यक् वदति भवान् वदतु प्रयत्नं करोतु त्वं कीर्तिं मिलयत् मिलयत् प्राप्नोषि प्राप्नो प्रामाणिकतया कार्यं करोषि चेत् त्वं कीर्तिं प्राप्नोति उत्तमं महोदय इदानीम् अपकीर्ति असत्य वदति नहीं। तर्हि अपकीर्ति भविष्यति इति भविष्यति अपकीर्तिं प्राप्नोति इति उत्तमं भगिनी उत्तम हा हा रम्य भगिनी वदतु एकं संशयं वदतु पृच्छ सत्कर्मं करोति चेत् कीर्तिः प्राप्नो प्राप्नोति सम्यक् सम्यगस्ति वा दुष्कर्मं करोति चेत् दुष्कर्मं करोति चेत् अपकीर्तिः भविष्यति अत्र पश्यन्तु भेदः कुत्र वर्तते सत्कर्म सत्कर्म करोषि चेत् कीर्तिं शक्नोति तत्र कीर्तिः भवति परन्तु यदा भवति इति वजा वदा वदामः चेत् तत्र किं भवति अपकीर्तिः भवति भवकीर्तिः भवधातोः कृते अपकीर्तिः एव कर्तृरूपेण आगच्छति अतः अपकीर्तिः भवति कीर्तिं प्राप्नोति कीर्तिं अपकीर्तिः भवति भवति, अस्ति अपकीर्तिः भवति अत्र पश्यन्तु हा सज्जनानां सर्वत्र सज्जनानां सर्वत्र कीर्तिः भवति दुर्जनानां सर्वत्र अपकीर्तिः भवति स्पष्टं भेद अत्र भेदः कः तद् द्वितीयान्तपदं कदा कदा उपयोगे द्वितीयान्तपदं कदा आगच्छति यदा कर्म कर्मूपेण आगछति अहम अस्ति, पश्या वृक्ष अस् वृक्ष बीजा वृक्ष बवती परशा तथा अपकर्तिर्ति अपकर्तिमती कीर्ति भेद इधान वाला रमणी भगिनी धन्यवाद इदानीम् अम्बिकापतिमहोदय um, प्रत्यक्षं प्रत्यक्षम् काठिन्यमस्ति परन्तु mm. भवन्तः सर्वे उत्तमतया वदन्ति अतः अहं मन्ये तथैव वयं कुर्मः किञ्चित् कालपर्यन्तं <laughs> प्रत्यक्षरः <laughs> प्रत्यक्षम् अस्ति ईश्वरस्य hmm. अस्तित्वं प्रत्यक्षरूपेण अपि अनुभवितुं शक्नुमः इति केचन hmm? जनाः अस्तु प्रत्यक्षं विरुद्धार्थं किमस्ति तत्र विपरीत विस्मरतु अत्र उत्तमम् उत्तमः अस्ति तत्र, uh, तत्र? Uh. प्रत्यक्षः क्ष इत्युक्ते दर्शनं तत्र उत्तमम् अति उत्तमं महोदय परोक्षम् इदानीं वदतु वदतु वेदाध्ययनं परोक्षमस्ति वेदाः वेदाः वेदानां रचना परोक्षम् अभवत् वेदाः अपुरुषाः इति वदन्ति चेत् तत्र अस्माकं पुरतः वेदानां रचना न अभवत् केन कृतं तदपि वयं सर्वे न जानीमः तत् परोक्षम् इति रामायण रामायणकालः अपि परोक्षकालः अस्माकं चक्षोः पुरतः न अभवत् पुरत। पुरतः न अभवत् परोक्ष कालः इति उत्तमं महोदय अग्रिमे तत् जयन्ति भगिनी जयन्ति भगिनी वक्रः वक्रः न शक्यते किं वाक्यं बेनि किं शब्दं बेनि अत्र सर्वे पश्यन्तु मम समीपे वामनः उन्नतः कृशः स्थूलः एतादृशाः शब्दाः सन्ति बट् परन्तु येन प्रकारेण भवन्तः सर्वे वदन्ति अहम् इतोपि काठिन्यं तत्र भवेत् इति चिन्तयामि वक्रः आं भगिनी वक्रः वक्रः कूणि वक्रा अस्ति वक्रा आसीत् किम् ऐ मीन् कूणि तमिळ् मध्ये आसीत् किल मन्दरा मन्दारा वक्रा आसीत् अस्तु अस्तु अस्तु उत्तमं वक्रासीत् वक्रा तस्य विपरीतार्थ विपरीत अर्थः स्ट्रैट् भवति किं वदनीयं बेनिखः रेखा चिन्तितवती रेखा समरेखा अस्तु रयल् रै रैल्यानस्य मार्गः समरेका आरे बहु उत्तमम् उत्तमम् उत्तमं सम्यक् इदानीं रमणी भगिनी रमणी भगिनी धनिकः धनिकः धनिकः धनिकः धनिकः धनिकः भिक्षुकं धनं ददाति उत्तमं विपरीतर्थ निर्धनः उत्तमं निर्धनः निर्धनः नर्... धनिकं धनं याजयति तत्र याचना अस्ति चेत् कथं वदनीय निर्धनः धनिकाय धनं याचय याच इति वानिकस्य समीपे याचनां करोति योग्यमस्ति योग्यमस्ति निर्धनः धनिकस्य समीपे धनं याचयति धन्यवादः इदानीं वीणा भगिन्याः कृते वीणा भगिनी हा भगिनी चाकारः चाकारः वा इत्युक्ते सक्सेस्फुल् भगिनी हा तत्र सक्सेस्फुल् अपि अस्ति परन्तु ईश्वरस्य रूपस्य विषये वदामः चेत् साकारः सगुणसाकारः इति अस्ति खलु सह आकार साकार सः आकारसहित साकार भवती वक्तुं शक्नोति अहं जानामि परन्तु इदानीं क्लिष्टं एव भवेत् तत्र भवन्तः सर्वे उत्तमप्रकारे वक्तुं शक्नुवन्ति तत् मम आनन्दस्य विषये सन्तोषस्य विषये वयं पूर्ण पूर्णभक्त्या भगवन्तं साकारं भवितुम् अर्हसि साकारं कर्तुं शक्तुम् अर्हसि उत्तमं भगिनि तत् पूर्णभक्त्या अनन्यभक्त्या इति खलु उत्तमं भगिनि इदानीम् विपरीतर्थ किं भवति विकारः वा तत्र निराकारः निराकारः साकारः निराकार निर् आकारः आकाररहित आकाररहित आकारसहित साकारः आकाररहित निराकारः आकाशः निराकारः भवति अरे उत्तमं सामान्य बहु उत्तमं सामान्यजनाः निराकार परमेश्वरस्य निराकाररूपम् अनुभवितुं न शक्नुवन्ति <laughs> निराकारस्वरूप अस्ति निर्गुणः अस्ति निराकारः अस्ति परन्तु वयं सर्वे सामान्याः वयं सर्वे अनुभवितुं न शक्नुमः अतः तत्र साकाररूपेण तत्र अस्माकं पुरतः विष्णोः मूर्तिः वा शिवस्य मूर्तिः चेत् एव वयं तत्र आराधनां कर्तुं शक्नुमः निराकाररूपस्य आराधनं करोतु इति अस्माकं कृते तत्र क्लिष्टता भवति सहजसाध्यति धन्यवादः श्यामला भगिनी भवत्याः कृते श्यामला भगिनी वदति वा सुलभं सुलभम् सुलभं संस्कृतं पाठः सुलभं भवति अरे वा उत्तमम् अस्तु विपरीतर्थ सुलभम् असुलभं दुर्लभम् इति अस्ति दुर्लभं कठिनमस्ति कठिनमपि इष्टम् क्लिष्टम् अपि अस्ति वा क्लिष्टमस्ति क्लिष्टं कठिनमपि योग्यं परन्तु अर्थदृष्ट्या सुलभं तत्र सुलभतया प्राप्यते इत्युक्ते लाभे सुल सौकर्यमस्ति तत्र दुर्लभं भवति चेत् लाभविषयस्य तत्र दुर्लभता दुर्लभतया दुर्लभतया तत्र दुर्लभता वर्तते तत् सौलभ्य सुलभम् इदानीं वार्लभं श्याम्लिनी संस्कृतं पाठं पठितुं बहु दुर्लभं भवति संस्कृतं संस्कृतपाठं पठितुं दुर्लभं भवति अच्छा अस्ति वा अस्तु huh? अस्तु वाक्यरचना तु योग्या एव किञ्चित् तत्तु अस्ति व्याकरणदृष्ट्या कदा कदा तद् भवितुम् अर्हति इदानीम् अन्तिमः शब्दः अनन्तरं कथा अन्तिमः शब्दः भारतमहोदय वदति भारतमहोदय अन्तिमः अन्तिमः राैट् हा न न दिस् इस् दास्ट् वर्ड् फार् टुडे सेशन् एण्ड् देन् विल् गो फार् स्टोरी प्रकाशः इति शब्दः अप्रकाशः प्रकाशः अप्रकाशः तत्र अन्धकारः अन्धकार वाक्यं वदति सूर्यस्य प्रकाशः सर्वत्र अस्ति अरे वाव बहु उत्तमं बहु उत्तमम् अन्धकारविषये वदतु रात्रिकाले अन्धकारः अस्ति रात्रौ अन्धकारः अस्ति उत्तमं महोदय उत्तमम् तथैव अस्माकम् अद्यदिनस्य कथा अस्ति प्रकाशः अन्धकारः प्रकाशः अन्धकारः कथायाः नाम किम् प्रकाशः अन्धकारः इति तत् वयं पठामः इदानीम् उत्तमतया सर्वे उक्तवन्तः मनसि सन्तोषः जातः उत्तमम् Hmm. प्रकाशः अन्धकारः विपरीत् अर्थः hmm? अस्तु इदानीम् अम्बिकापतिमहोदय भवान् आरम्भं करोति वा पठति वा अम्बिकापतिमहोदय क्षम्यतां oh, uh, प्रकाशः अन्धकारं प्रति गच्छेत् hmm. कदाचित् कृष्णः क्वापि प्रस्थानाय रज्जः सज्जः सज्जः भवति भवितुम् इच्छन् दर्पणस्य पुरतः स्थित्वा विविधै शुद्ध शुद्धरैः Mm -hmm. uh, आभरणैः आत्मानम् mm -hmm. आत्मानम् अलङ् आलं, अलङ्कुर्वन् आसीत् अत्र mm -hmm. yeah. पश्यन्तु सर्वे प्रकाशः अन्धकारं प्रति गच्छति तत्र प्रकाशः यत्र यत्र प्रकाशः अस्ति तत्र तत्र अन्धकारः न तिष्ठति प्रकाशस्य आगमनेन अन्धकारः अपगच्छति इदानीम् कथायाः विषयः प्रकाशः अन्धकारम् प्रति गच्छति कृष्णस्य कथा अस्ति कृष्ण कुत्र अस्ति प्रस्थानाय सज्जः भवितुम् इच्छन् दर्पणस्य पुरतः स्थित्वा विविधैः सुन्दरैः आभरणैः आभरणैः इत्युक्ते अलङ्कार आत्मानम् अलङ्कुर्वन् आसीत् तत्र आभरणानाम् उपयोजनं कृत्वा शृङ्गार इति अलङ्कुर्वन् इति आत्मानं स्वम् इति इत्युक्ते आत्मानम् इत्युक्ते तत्र आत्मा इति न स्वम् अलङ्कुर्वन् आसीत् डेकोरेटिङ्ग् हिमसेल्फ, दर्पणस्य दर्पण इत्युक्ते मिरर् दर्पणस्य पुरतः स्थित्वा हिस् डेकोरेटिङ्ग् हिम्सेल्फ् अडौण्डिङ्ग् हिम्सेल्फ़् इति अग्रिमं पठतु कृष्णस्य कृष्णस्य व्यवहारे एतादृशम् आचरणं न दृष्टम् आसीत् इतः पूर्वं कदाचिदपि इत्युक्ते किं महोदय कृष्णस्य व्यवहारवहारे एतादृशम् एतादृशम् आचरणं न दृष्टं न पश्यति आसीत् इतः पूर्वं कदाचिदपि तत्र एतादृशम् आचरणं तेन न कृतम् इतः पूर्वं इत्युक्ते तत्र हि स्पेण्डिङ्ग् मच् मोर् टैम् इन् फ्रण्ट् आफ् द मिरर् देट् ही नेवर् यूस् टु डु बिफोर् दिस् इस् हेपनिङ्ग् फोर् द फस्ट् टैम् इति भावः स्पष्टं वा अग्रिमम् अतः अतः आश्चर्यम् अनुभवन् mm -hmm. uh, तदीव uh, mm -hmm. सारधिः दारु दारुकः तम् अपृच्छत् हि सारति हि सारति mm -hmm. so, आर्य mm -hmm. अद्य कृत गम्यते uh, भवता अद्य कुत्र गम्यते भवता भवता इति भवान् शब्दस्य तृतीया विभक्ति कुत्र गम्यते वेर् आर् यु गुयिङ्ग् तत्र अ, कुत्र गम्यते भवता इत्युक्ते तत्र कर्मणि प्रयोगः अस्ति भवान् कुत्र गच्छति इति कर्तरि अद्य अद्य दिने भवान् कुत्र गच्छति तत्र सारथेः मनसि तत्र आश्चर्यभावना कथम् दर्पणस्य पुरतः कृष्णः स्थितः अनन्तरम् अलङ्कारान् उपयुज्य स्वस्य शरीरस्य अलङ्कुर्वन्ति तत् कथमेतत् कुत्र hmm. गच्छति अद्य भवान् hmm. अग्रिमं वाक्यं पठतु किमर्थं किमर्थमेव थिमा, बाह्य अलंकारे, विशेषणस्य hmm. दर्पण दर्श्यते अद्य विशेषस्था विशेष आस्था आस्था इत्युक्ते रुचि हा विशेषतया आस्था दर्श्यते अद्य बाह्यालङ्कारे बाह्यालङ्कारे बाह्यशरीरस्य सुशोभिकरणं प्रथमवारम् एव दृश्यते तत् किमर्थं किं कारणार्थं भवान् तत् करोति विशेषतया तत् बाह्यशरीरस्य सुशोभिकरणं करोति अग्रिमम् भवान् तु कदापि एवं बाह्यलङ्कारे आस्थां न दर्शन दर्शतवान् दर्शितवान् इतः दर्शितवान् इतः पूर्वम् इत्युक्ते पू पूर्वे न दर्श अलङ्कारं दर्शितवान् तादृशी आस्थाः भवान् न दर्शितवान् अद्यदिने एव पश्यामि भवान् सुन्दर सुन्दराणि सुन्दराणि आभरणानि उपयुज्य स्वस्य शरीरस्य अलङ्करोति स्वस्य शरीरं सुशोभीकरणं तस्य करोति तत् प्रथमं वारम् एवं पश्यामि इति सार्थी वदति अस्तु स्पष्टमस्ति सर्वेषां स्पष्टमस्ति इतपर्यन्तम् धन्यवादः म्बिकापतिमहोदय अग्रिमे बीना भगिनी पठति वा यदा हा भगिनी पठामि यदा यादृशी आवश्यकता आपतेत तदा तादृशम् आचरणं करणीयं भवति कृष्णः मन्दहासं प्रकटयन् किरीटाधिधारणे मग्नः सन् एव अवदत् इत्युक्ते स्वशब्दै किञ्चित् वदतु कृष्णः वदति यदा आवश्यकता भवति तदा तदेव आचरणं करणीयं तदेव स्वयं तदेव अलङ्कारम् आवश्यकम् इति वदति हा सम्यक् इत्युक्ते किं तत्र पश्यन्तु यदा तादृशी आवश्यकता आपतेत् आपतेत् इत्युक्ते पतति आपतति आगच्छति <laughs> इति अस्म अकस्मिक् रीत्या आगच्छति तदा तादृशम् करणीयं भवति पश्यन्तु सर्वे एषः विचारः गीतायाः सारः एव अस्ति आवश्यकतानुसारेण आचरणं भवेत् अस्माकम् आचरणं कथं भवेत् आवश्यकतानुसारेण अद्य अद्यक्षणे मम आवश्यकता का सम्पूर्णतया भवन्तः सर्वे संस्कृतरागिणः भवन्तः सर्वे उत्तमाः छात्राः मम मन अत्र एव भवेत् पाठने एव भवेत् संस्कृतभाषायामेव भवेत् तस्य एव आवश्यकता अस्ति अत्र आवश्यकतानुसारेण आचरणं करणीयं यदा भवन्तः भवन्तः अपि सर्वे अत्र अध्ययनस्य चिन्तयनम् एव कुर्वन्ति चेत् सम्यक् भवति यदा हा अद्य किं करोमि यदा भ्रमणार्थं कुत्र गच्छामि तादृशचिन्तनं न आवश्यकतानुसारेण आचरणम् इति कृष्णस्य तत्त्वज्ञानं हा तत् उक्तवान् र्थे तु तत् इति न आसीत् अतः हा, मन्दहासं प्रकटयन् किरीटादिधारणे किरीट इति आभरणम् आभूषणम् धारणे मग्नः सन् एव अवदत् इत्युक्ते सः मग्नः आभूषणं धारयति एवं वदति आवश्यकता अपतेत् तदा तादृशम् आचरणं करणीयम् एव भवति अग्रिमे पठतु भगिनी इदानीम् इदानीं तादृशी <laughs> आवश्यकता का न, आपतिता, आप, आपतिता अद्य कं द्रष्टुं गम्यते भवता दारुकः अपृच्छत् इत्युक्ते आ, इत्युक्ते सारथिः अपृच्छत् अद्य अद्य अद्य कथम् आवश्यकता अभवत् कं द्रष्टुम् गम्यते इति अपृच्छति भवता भवता भवान् भवान् कं द्रष्टुं गच्छति तत्र गम्यते इति कर्मणि प्रयोगः अस्ति तत् अनन्तरं वयं तदपि वयं पठिष्यामः कर्मणि प्रयोगः कर्तरिप्रयोगः परन्तु अत्र भवता इति तृतीयान्त् दृश्यते कर्ता भवता अतः तर्मणी प्रयोग परंतु पर कर्तरी प्रयोगे भवान, कम द्रुम ग्रुम गारूक तो न अज्ञानी न अति ती आवश्यकता का अग्रिमी अदय दुर्योधन द्रुम ग दुर्योधनं द्रष्टुं श्रीकृष्णः गच्छति आवश्यकता का आवश्यकता आपतिता आपतिता इति शब्दस्य योजनं तत्र एकनिमिषम् हा आपतिता इति शब्दस्य योजनं तत्र बहु सम्यक्रीत्या कृतमस्ति आपतिता दुर्योधनः सज्जनः नासीत् दुर्जनः एव तत्र mm -hmm. स्वेच्छया श्रीकृष्णः तत्र गन्तुं न इच्छति परन्तु आवश्यकता अस्ति बहुवारम् अस्माकं जीवने अपि तादृशी स्थितिः भवितुम् अर्हति वयं न इच्छामः परन्तु तत् कार्यं करणीयमपि भवति जीवने तस्य आवश्यकता भवति तथैव तादृशी आवश्यकता आपतिता आपतिता इत्युक्ते जस्ट् इन् फ्रण्ट् आफ़् यू सो अद्य कं द्रष्टुं गम्यते भवता इति सः पृच्छति अद्य दुर्योध अग्रिमं <laughs> दुर्योधनदर्शनस्य अस्य अलङ्कारस्य च कः सम्बन्धः किं hmm. पृच्छति दारुकः भगिनी पृच्छति एतम् अलङ्कारस्य दुर्योधनस्य कथं सम्बन्धः इति पृच्छति hmm. सः तु सरलतया पृच्छति दुर्योधनस्य दर्शनम् अलङ्कारस्य कः सम्बन्ध किम् भवान् तादृश अलङ्करणम् कृत्वा गच्छति दुर्योधनस्य मेलनस्य कृते इति सः पृच्छति इदानीम् इति प्रश्ने सति कृष्णस्य भगवतः उत्तरम् अतीव महत्त्वपूर्णम् अस्तु तत् पठामः धन्यवादः वीणा भगिनी रमणीभी अग्रिमे धन्यवाद अग्रिमे पठति वा रमणी भगिनी आं भगिनि ये मम अन्तरङ्गवैशिष्ट्यं पश्यन्ति तेषां पुरतः अहं सरलवेषेण एव तिष्ठामि दुर्योधनः न तादृशः बाह्यां बा बाह्याडम्बरदर्शने तस्य बाह्याडम्बरदर्शने तस्य विशेष आसक्तिः अतः तम् आवयितुम् अयम् वेषः इत्युक्ते किम् अवदत् दुर्योधनः बाह्याडम्बरदर्श दूर्यो बाह्याडम्बरदर्शने विशेष आसक्ति दूर्यो दुर्योधनस्य बाह्याडम्बरदर्शने बहु विशेषा आसक्ति अस्ति अतः अहं सरलवेषेण तिष्ठतुं न इच्छामि तं प्रभावयितुम् अहम् अयं वेषयामि धारयामि इति अत्र दुर्योधनः दूर्जनः धनस्य लोभी तस्य मनसि तृष्णा आसीत् अतः सः अन्तरङ्गं न यस्य कस्य अपि कः अपि पुरतः भवेत् तस्य अन्तरङ्गं सः न पश्यति एव अन्तरङ्गं पश्यामः पश्य। hmm. चेत् विशिष्टप्रकारेण विशिष्टा दृष्टिः भवेत् तेन एव अन्तरङ्गस्य ज्ञानं भवति परन्तु दुर्योधनस्य रुचिः बाह्याडम्बरे बाह्याडम्बरे hmm. आडंबरे बाह्य आडंबर बाह्यूपे रुचि. विशेष आसक्ति विशेष प्रकार आसक्ति आसक्ति तशंतु रुचि ही आसक्ति किंचिति तेद वर्त है स्लैट डाकर् शेड आसक्ति तोभ भावना ही तो भ भक्ति सम्यक् इति भावनायाम् अपि बहु बहवः जनाः अस्ति तेषां रुचिः परन्तु तत्र विशेषरूपेण आसक्तः आसक्तः मनः दुर्योधनस्य अतः तं प्रभावयितुम् अयं द्वेषः हिन्दीभाषायां वयं वदामः देशवैशावैशावेश यत्र यादृशी स्थितिः तत्र अस्ति तादृशी वेष रचना भवेत् इति अतः तं प्रभावितुम् अयं वेशः अस्तु सम्यक् सम्यक् उत्तमं धन्यवादः धन्यवादः अग्रिमे श्यामलाभगिनी वदति तत्र पठति वाक्यद्वयं पठतु दुर्योधने प्रभावं जनयितुं यदि इष्येत् तर्हि सः एव अत्र किमर्थं भवता स्वयं गम्ये गम्येत् तत्र दारुकः पुनः अपृच्छत् इदानीं किम् अभवत् दारुकस्य प्रश्नः दारुकस्य प्रश्नः कः भगिनि दारुकस्य पुनः पृच्छत् किमर्थम् तत्र इति पृच्छति ह भवान् स्वयम् किमर्थम् तत्र गच्छति यदा दुर्योधनस्य मनसि प्रभावम् जनयितुम् भवान् इच्छति चेत् सः एव अत्र आनायताम् इत्युक्ते दुर्योधनम् अत्र आवयतु। किमर्थं भवान् तत्र गच्छति आवयतु तम् दुर्योधनम् अत्र हा तत्र सन्देशं प्रेषित्वा दुर्योधन एव अत्र आगच्छेत् भवान् किमर्थं तत्र गच्छति इति दारुकः पृच्छति हा वदतु हा अपृच्छति इति भूतकाले दारुकः अपृच्छत् सम्यक् धन्यवादः भगिनी अन्तिमं वाक्यं पठति वा भो अन्धकारः प्रकाशदिशि न आगच्छति प्रकाशः एव स्वयं स्वयम् अन्धकारः दिशि गच्छेत् प्रकाशस्य धर्मः एषः इति हसन् अवदत् कृष्णः कृष्णः वदति अन्धकारः दिश दिशानाम् एव ऐ मीन् प्रकाशं प्रकाशम् अन्धकारदिशाम् एव आगच्छ प्रति प्रकाश प्रकाश प्रका न गच्छति प्रकाश प्रकाशे प्रकाशे इति कृष्णः वदति प्रकाशः एव स्वयम् अन्धकारस्य समीपम् आगच्छति अन्धकारः स्वयम् अतः अहं प्रकाशस्य धर्मः एषः इति अतः अयं गच्छामि तत्र इति कृष्णः हसन् वदति सम्यक् प्रत्यक् प्रत्येकार्थं प्रत्यक् वयं सर्वे प्रत्यक् दर्शनं करणीयं बहिः न दर्शनं करणीयं प्रत्यक् एव दर्शनं करणीयम् अत्र भगिनी प्रकाशः एव अन्धकारं प्रति गच्छति प्रकाशः धर्मः इत्युक्ते ीजनाः ये ज्ञानि जना प्रकाश इति ज्ञानस्य रूपम् अन्धकार इति अज्ञानस्य रूपम् प्रकाश अन्धकारः स्तमः अज्ञानः तत्र सर्वे दुर्गुणाः अन्धकारस्य रूपम् प्रकाश ज्ञानस्य रूपं तत्र दुर्गुणाः सन्ति चेत् परन्तु गुणाः सन्ति प्रकाशः तत्र प्रकाशः एव ज्ञानीमनुष्य अत्रापि समाजे अपि ये जनाः ज्ञानी ज्ञानिनः ते सर्वं ते सर्वे जनाः अज्ञानीजनानां पुरतः गच्छति प्रकाश एव अन्धकार यथा अत्र रमणीभगिनी उक्तवती तत्र संस्कृतभारते शिबिरं सा तत्र ग गत, गतवती तत्र अपि संस्कृतभारत्याः अपि बहवः जनाः ज्ञानिनः एव परन्तु नम्रतया ते सर्वत्र गच्छन्ति किमर्थम् अस्माकं भाषायाः विषये जनेषु जागृतिः भवेत् तत्र भाषायाः विषये जनाः तत्र मनसि रुचिः उद्भवेत् जनाः गच्छन्ति प्रकाशः अन्धकारं प्रति गच्छति दुर्योधन तु कुमार्गेण एव चलति चलति स्म महाभारतकाले तदा एकवारं श्रीकृष्णस्य विचारः अस्ति एकवारं प्रयत्नं करोमि मनसि भावना यदा जनयति चेत् महाभारतयुद्धप्रसङ्गम् अपि वयम् तत्र न त्युदि अतः सह तत्र परन्तु ग पर कथम तबरण धारित तमर्थ बाह्य आडंबरे बाह्याबरेव रुचि अतः तथा धारय आसी इति प्रकाशः एव अन्धकारं प्रति यत्र पश्यन्तु यदि दुर्योधनस्य कृते श्रीकृष्णः सन्देशं प्रेषयति तदा सः आगच्छति वा न सः न इच्छुकः एव तत्र सद्गुणानाम् अत्र अस्ति खलु भगिनी दुर्योधनस्य जानामि धर्मः न च मे प्रवृत्ति जानामि अधर्मः न च मे निवृत्ति इति अहं किं धर्म धर्मः कः इति अहं जानामि परन्तु मम तादृशी प्रवृत्तिः नास्ति अधर्मं किं तदपि अहं जानामि पिदन्तु hmm. अधर्मात् निवृत्ति न शक्यते मया इति hmm. hmm. अतः प्रकाश एव अन्धकारं प्रति गच्छति इति बोधः hmm. hmm. सर्वेषां स्पष्टता hmm. भवेत् hmm. पष्टमस्ति hmm. वा hmm. भगिनी एकं uh, I did not understand, can you please clarify? The English, uh, yeah. Yeah. Eka varam, Pashyamava, Katha? Haa. Haa. Kuma, Eka varam. Putra si? Ah, um, दुर्योधने प्रभावं जनयितुं यदि ईष्येते ईष्येत् तर्हि सः ईष्येत् दिस् वर्ड् ऐ डि नाट् आन् अस्मेन् तत्रापि इष्येत् अत्रापि यकार अस्ति तत् अत्रापि तत् कर्मणि प्रयोगः कर्मणि हा किञ्चित् अग्रिमे तस्य सकलतया अध्ययनं कुर्मः परन्तु इदानीं वदामि पश्यन्तु इनि कर्तरिप्रयोगः इत्युक्ते कर्ता कर्तुपदस्य प्राधान्यं रामः गच्छति रामः इति कर्ता गच्छति क्रियापदमस्ति गच्छति इति वदामि चेत् प्रश्नः आगच्छति कः गच्छति गमनक्रियायाः कर्ता कः तत् रामः रामः पठति इदानीम् अहं यदा वदामि राधाभगिनी क्षम्यतां वीणा भगिनी पठति तत् वीणा भगिनी पठति वीणाभगिनी किं पठति इति प्रश्नः आगच्छति हा परन्तु पठति इति क्रियापदस्य कर्ता रामः वा वीणा वा राधा वा एवं परन्तु किं पठति इति कर्म कर्मपदं किं भवति कर्मपदं भवति किं पठ ग्रन्थं पठति कविता पठति वा तत्र पुस्तकं पठति इति हा इदानीं तत्र कर्तुपदं कर्तरिप्रयोगं वदामः चेत् कर्तुपदस्य प्राधान्यं क्रियापदं दृष्ट्वा अहं कर्ता कर्तुपदस्य विषये अनुमानं कर्तुं शक्नोमि गच्छति कः गच्छति तत्र सः गच्छति एषः गच्छति अनन्तरं गणेशः गच्छति रमेशः गच्छति एवं परन्तु यदा mm कर्मस्य -hmm. प्राधान्यं ग्रन्थः पठ्येत् ग्रन्थः mm -hmm. पठ्येत् य पठ्येत् तत्र पठ्येत् इति आगच्छति चेत् ग्रन्थः ग्रन्थः इति कर्म अत्र कर्म महत्त्वपूर्ण कर्मानुसारेण क्रियापदम् आगच्छति कर्मणि प्रयोग आगच्छति इति आङ्ग्लभाषायाम् एक्टिव् वाय्स्थितिः अस्ति खलु भगिनी वाय्स् किं भवति कर्ता कर्म क्रियापदम् एक्टिव् वाय्स् किं भवति The work has been done by someone, even mm -hmm. that by someone remains karta, by someone karta padam. Parantu, mm -hmm. passive voiceti vadamachet, karmani pravok vadamachet, tatra karta padasya pradamyan nasti eva. Gammet, atra isshet. Mm -hmm. Okay, we're getting it, yeah. Haan, tatra mahatavam kim prabhavam janayitum. Mm -hmm. अत्रापि किमर्थं भवता स्वयं गम्येत तत्र भवता कर्ता भवान् इति तृतीयान्त भवति तेन पत्रं लिखितम् तेन mm -hmm. Mm -hmm. पत्रं अस्तु महत्त्वपूर्ण किमस्ति भगिनी कर्मणि प्रयोगे क्रियापदं कर्मानुसारेण चरति हा mm -hmm. अतः सः पत्रं लिखति सः पत्रं mm -hmm. लिखति ते पत्रं लिखन्ति ते पत्रं लिखन्ति यदा अहं कर्तुपदं कर्तुपदे परिवर्तनं करिष्यामि तदा क्रियापदे अपि परिवर्तनं भवति कर्तरिप्र परन्तु तेन पत्रं लिखितं तेन कविता लिखिता कविता लिखिता पत्रं लिखितं लेखः लिखितः लेखितः इति के कर्मानुसारेण तस्य परिवर्तनं भवति इति कर्मणि प्रयोगम् अत्र भवता स्वयं गम्येत् तत्र भवान् स्वयं गच्छतु गच्छति तत्र इच्छति प्रयोग इष्येत् कर्मणि प्रयोग अस्तु अनन्तरं तदपि वयम् अध्ययनं कुर्मः इट् इस् वेरि इण्ट्रेस्टिङ्ग् कर्तरिप्रयोगः कर्मणि प्रयोग वि विल् स्टडि इन् डीटेल् धन्यवादः भगिनी इदानीं कस्यापि चिन्तनमस्ति वा कथायाः विषये वक्तुमिच्छति वा कस्यापि चिह्नं सर्वे uh -huh. भारतमहोदय वदति yeah. वा uh, प्रकाश इत्युक्ते ज्ञानं प्रकाश mm? इत्युक्ते सत्यं mm. इत्युक्ते अन्धकार अज्ञानम् असत्यम् एवम् अन्धकार उत्तमं महोदय अम्बिकापतिमहोदय वदति वा बाह्यालङ्कारं मुख्यं नास्ति अन्तरालङ्कारम् एव मुख्यम् अन्तरङ्गे शुद्धभावना इति सम्यक् जयन्ती भगिनी रामणी भगिनी श्यामला भगिनी वीणा भगिनी एकमेकं वाक्यं ददतु अस्माकं सर्वेषां कृते अन्तका अन्तःकरणम् अन्तकारम् अस्ति तदपि कृष्ण कृष्ण श्रीकृष्णः एव दूरीकरणं सः एव दूरी दूरीकरोति इति तस्य तस्य दर्शनेन दूरीकर्तुं शक्यते नो चेत् तत्र गीतायाः अध्ययनं कृत्वा अपि मनसि ज्ञानप्रकाशः उदयति इति वक्तुं शक्नुमः जनयति ज्ञानप्रकाशः उत्तमः विचारः रमे भगिनी वदति वा भगिनी अस्माकम् अस्माकम् आचरणम् आवश्यकतया आवश्यकतानुसारेण करणीयम् सत्यं सत्यम् तस्मिन्नपि परिवर्तनं भवेत् प्रव परिवर्तनशीला वयं सर्वे भवेयुः इति सम्यक् उत्तमं धन्यवादः वीणा भगिनी वदति वा वीणा भगिनी <coughs> दुर्योधनस्य दो, कृष्णाकृते भक्तिः न सन् न आसीत् mm. तद् तदेव कृष्णस्य अलङ्कारः अपि न उपयोगं भवेत् mm. मनसि भक्तिभावना एव न आसीत् श्रद्धा न आसीत् तद्विचाराणाम् अधिष्ठानम् एव नासीत् तेन किं प्रभावं जनयितुं सह गतवान् आसीत् परन्तु किमपि न लाभः लाभं न अभवत् एव सत्यम् मनसि एव श्रद्धा श्रद्धा विहि विहीनः सः श्रद्धा सम्यक् yes. uh -huh. पश्यन्तु एक सर्वे एक एका एव कथा परंतु परन्तु भिन्नप्रकारेण वयं तत्र अनुमानं कर्तुं शक्नुवन्ति सर्वे जनाः उत्तमम् उत्तमम् अन्यकोपि श्यामलाभगिनी वदति वा वक्तुम् इच्छति वा श्यामलाभगिनी वदतु दुर्योधनः कृष्ण कृष्णभगवन्तः दुर्योधनः कृष्णतया भक्तः अस्ति परन्तु किञ्चित् क्लेशः भवति अतः प्रकाशः न भवति मनसि तत्र भक्तिभावना एव न आसीत् भगिनी भक्तिभावना किञ्चित् एव अस्ति धर्म धर्मविषये आस्था नास्ति धनस्य लोभी सह तस्य अलङ्काराणां मनसि महत्त्वम् अधिकमस्ति अतः प्रकाशः तं समीपम् गत्वा कः अपि न लाभः इति अस्तु उत्तमं यू आल् आर् प्रोग्रेसिङ्ग् वेरि नैस्लि एस्पेशलि ऐ मस्ट् एप्रिशियेट् एच्रिबडि भारतमहोदय बहु सम्यक्रीत्या भवान् उक्तवान् अद्यदिने अपि प्रतिदिने तथैव भवेत् इति चिन्तयामि अस्तु वयं विरमामः समयः जातः अम्बिकापतिमहोदय शान्तिमन्त्रेण समापयामः वदति वा <coughs> सर्वेषां स्वस्तिर्भवतु सर्वेषां शान्तिर्भवतु सर्वेषां पूर्णं भवतु सर्वेषां भवत। मङ्गलं भवतु सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामेः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखबाद्भवेत् ॐ शान्ति शान्तिशान्तिः हरिः ओम् तत्सद् श्रीगुरुभ्यो नमः हरिः ओम्